श्रीहरये नमः अथ दसमोऽध्यायः श्रीभगवानुवाच मयोदितेष्वहित स्वधर्मेषु मदाश्रयः वर्णाश्रमकुलाचारम् अकामात्मा समाचरेत् अन्वीषेत विशुद्धात्मा देहिनां विषयात्मना गुणेषु तद्वध्यानेन सर्वारम्भवि पर्ययं सूक्तस्य विषयालोको ध्यायतो वा मनोरथः नानात्मकत्वात् विफलस्तथा भेदात्मधीर्गुणैः जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनं यमानभीष्णं सेवत नियमान् मत्परक्वचेत् मतभिज्ञं गुरुं शान्तम् उपासीतमधात्मकम् अमान्यमत्सरोदक्षो निर्ममो दृढसौहृदः असत्वरोऽर्थ जिज्ञासोर् अनसूयोरमोगवा जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु उदासीन समं पश्यन् सर्वेषु अर्थमिवात्मनः विलक्षणस्थूलसूक्ष्माद्देहोधात्मेषिद्धास्त्वदृ यदाग्निर्दारुणो दाह्यात् दाहकोऽन्यः प्रकाशकः निरोधोत्पत्य न बृहन् नानात्वं तत्कृतान् गुणान् अन्तः प्रविष्ट आधत्तय एवं गुणैर्विरचितो देहोऽयं पुरुषस्य हि संसारस्तन्निभन्तोऽयं पुंसो विद्याचिदात्मनः तस्माज्जिज्ञासयात्मानम् आत्मस्थं केवलं परं संगम्य निरस्येदेतत् वस्तुभुक्तिं यथाक्रमम् आचार्यो रणिराध्य श्यातं देवासंुत्तरारणिः तत्संधानं प्रवचनं विद्या सन्ति सुखावहः वैसारथी साति धुनोति मायां गुणसम्प्रसूता गुणांश्च सन्द्य यदात्ममेतत् स्वयं च सा्यत्य समेध्यदाग्निः अतैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः नानात्मवत लोककालागमात्मनां मन्यसे सर्वभावानां संस्थाह्य उत्पत्तिकीयथा तत्तथा कृतिभेदेन जायते बित्यते चतिहे, तिहे एवमप्यङ्ग सर्वेषां देहिनां देहयो गतः कालावयवतः जन्मातयो सहृद् अत्रापि कर्मणां कर्तुम् अस्वातन्त्रयं च लक्ष्यते भोक्तुश्च दुःखः सुखयो कोन् वर्तो सुखं किञ्चित् विद्यते विदुषामपि तथा च दुःखं मूढानां वृताहङ्करणं परं यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः तेऽप्यदानविधुर्योगं मृत्युर्न प्रभवेद्यथा कोन्वर्थ सुखयत्येनं कामो वा मृत्युरन्तिके आघातं नीयमानस्य वत्स्येव न दुष्टितः श्रुतं च दृष्टवद्दुष्टं स्पर्धाशु यात्ययव्यवयै भगवन्तराय कामत्वात् कृषिवच्चापि निष्फलम् अन्तरायैय विहतो यदि धर्मस्वनुष्ठितः तेनापि निर्जितं स्थानम् यथा गच्छति देवता इष्ट्वेकदेवतायज्ञे स्वर्लोकं याति याज्ञिकः पुञ्जितेववत्तत्र भोकान् पचिते शुब्रे, विमान उपकियते, विमानमुपकीयते गन्तर्वैर्विकरन्मध्ये देवीनां का हृद्यवेषिभिः कामगयानेन किङ्किणीजालमालिना क्रीडन्न वेदात्मपातं सुराक्रीडेषु निर्वृतः तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते क्षीणपुण्यपतत्यर्वाग निश्चन् कालचालितः यद्यधर्मरतः सङ्घातः सतां वाजितेन्द्रियः कामात्मा कृपणैर्लुब्ध स्त्रैणो भूतविहिंसकः पशून नरकानवसो जन्तुर्गत्वा यात्युल्भणं तमः कर्माणि दुःखो दर्काणि कुर्वन् देहेन तैः पुनः देहम् आपजते तत्र किं सुखमर्त्यधर्मिणः लोकानां लोकपालानां लोका मत्भयं कल्पजीविनाम् ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः गुणा सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ यावच्छाद्गुणवैषम्यं तावन्ना त्वमात्मनः नानात्वम् आत्मनो यावत् परातन्त्रयं तथैव हीं यावत् अस्यास्वतन्त्रत्वं तावदीश्वरतोभयं ययेतत् समुपासिरंस्ते मोह्यन्ति सुचार्पिताः काल आत्मागमो लोक स्वभावो धर्म च इति मां बहुधा प्रापूर्णं व्यधिकरे सती उद्धवो वाच गुणेषु वर्तमानोऽपि देहे जेष्वनापावृतः गुणैर्न बध्यते देहे बध्यते वा कथं विभो कथं वर्तेत विकरेत् कैर्वाज्ञायेत लक्षणैः किं भुञ्जीतोत विसृजे च सीता सीतयाति वा एतदच्युत मे ब्रूहिं प्रश्नं प्रश्नविधाम्बरखां नित्यमुक्तो नित्यबद्ध एक एवेति इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते भगवत् उद्धवसंवादे दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज के जय